देवसुवामेतानि भवेतुं शुभन्ति एतावन्तो वै देवानागुम् सभाः तगेवास्मै भवान् प्रयच्छन्ति तगेन गुंसुवन्ते अग्ररेवेण गृहपदेनागुम् सुवदे सोमो वनस्पतीनाम् रुद्रः पशूनाम् गृहस्पतिर्वाचाम् इन्द्रोज्येष्ठानाम् निद्रः वरुणो धर्मपतीनाम् एतदेन सर्वम् भवति सपिता त्वा प्रसमानाकुंसुमदामिति हस्तम् गृह्णाचिप्रसूत्यै एदेवादेवसुपस्थेत्याह यथायतुैतत् महते क्षत्राय महत आधिपत्याय महते जानराज्यायेत्याह आशिषमेवेतामाशा आस्ते केशव भरता राजा सोमोऽस्माकम् ब्राह्मणा नागम् राजेत्याह अस्मात् सोम राजान्राह्मणाः प्रवृत्तम् नाम राज्यमधायीत्याह राज्यमेवास्मिन् प्रतिदधाति स्वाम् तनुपं वर्णोऽष्येरित्याह वर्णसममेवावरुन्धे शुचैर्मित्रस्य वृत्त्या भूमेत्याह शुचिमेवैनम् वृत्यम् करोति अमन्मयमहदर्तस्य नामत्याह मृत एवैनम् सर्वे व्राता वरुणस्य होवण्नित्याह सर्वौभ्राजमेवैनम् करोति विमित्रयैवैरराजमतालेदित्याह अराजमेवैनम् तारयति असौषदम् तैज्ञयार्जेनेत्याः सुदयत्येवैनम् द्वित्रुतो यमानम् आयुरित्याः आग आयुरेवास्मिन् दधाति भ्याम् विमृष्टे दिवाद्यमानः प्रतिष्ठित्यै अर्ग्ये सोमेयस्य एकादशकपालस्य देवसुभान् च हमिजामग्ण पद्यते देवताेवेण उभयतः परिगृह्णादिष्टक्रमान् क्रमते पुष्टुरेव भोत्क्रेमान् लोकानभिजयति अर्थे तस्थेति जुहोति आहुक्तेनानिष्क्रीय गृह्णाति अथो हविष्कृतानामेवाभिघृतानाम् गृह्णाति वहन्तीनाम् गृह्णाति एतावा अपागम् राष्ट्रम् राष्ट्रमेवास्त्रियगृह्णाति अथो श्रियमेवैनमभिवहन्ति अपाम्पचरसेत्याः विथमेवाकः वृषाः स्यूर्मिरित्याः ऊर्मिमन्तमेवैनम् करोति कृषसेनासेत्याः सेनामेवास्पृशगच्छति प्रचक्षितस्थेत्याः एता वा अपां विशः विषमेवास्मै परियोहति मरुदामोजस्थेत्याः अन्नम् वै वर्दः अन्नमेवा वृन्धे सूर्यवर्चसस्थेत्याः राष्ट्रमेव वर्चस्य कः वा एतत् यद्वरिषति अनृतयदा च सत्यानृते एवावृन्धे नैनकम् सत्यानृते उजेहि गुस्तः एवम् वेद मान्दास्थेत्याह राष्ट्रमेव ब्रह्मवर्त्यस्य कः राष्ट्रमेव वश्यकः षटीस्थेत्याः पशुगोविषट पशूनेवावरुन्धे विश्वभदस्थेत्याः राष्ट्रमेव वयस्यकः स्थेत्याह राष्ट्रमेवेन्द्रियाव्यकः अग्नेस्तेजस्याः स्थेत्याः राष्ट्रमेव तेजस्त्यकः ते अपामोषधीनाविङ्गतस्थेत्याह राष्ट्रमेव मधव्यमकः सारस्पतम् ग्रहम् गृह्णाति एषा वा अपाम् पृष्ठम् यत्सरस्वती पृष्ठमेवैन कुंसमानानाम् षोडशकलो वै पुरुषः यावानेव पुरुषः तस्मिन्ने विगन्तशादि षोडशभिर्जुहोदिषोडशभिर्गृह्णादि भातृकिंशत्सम्पद्यन्ते भातृकिंसदक्षरानुष्टुके भागनिष्टुप्सर्वानिच्छन्दांसि वाचैवैनकम् सर्वेभ्यश्चन्दाभिरभिषिञ्चति हे वीरापः सम् मधुमदे मधुमदेभिः सृजद्धमित्याह ब्रह्मणैवैनाः अनाशिष्टास्वी तदेत्याह ब्रह्म नैवनाः साधयतिषष्टियम् शुष्ट ब्राह्मणाच्छगुंशिनश्च साधयति आग्नेयो विहोता ऐन्द्रो ब्राह्मणाच्छगुंसि तेन सा जैवेन्द्रियेण च भेदो राष्ट्रम् परिगृह्णाति हिरण्येनोत्पुणादि आहुत्यैः पवित्राभ्यामुत्पुणम् दिव्यावृत्ते शतमानम् भवति शतायुष्पुरुषः शतेन्द्रियः आयुष्केन्द्रिये प्रतिष्ठति अनिपृष्टमुखीत्याह अनिपृष्टगृह्येतत् आजोबन्धुरित्याह आजोह्येडबन्धुः तपोजा इत्याह तपोजाह्येतत् सोमस्य दात्रमुखीत्याह सोमः सह्येतद्दात्रम् शुक्रावशुक्रेणोत्पुनामीत्याह शुक्राह्यापः शुक्रगम् हिरण्यम् चन्द्राश्चन्द्रेणेत्याह चन्द्राह्यापः चन्द्रगं हिरण्यम् अमृता अमृतेनेत्याह अमृताह्यापः अमृतगं हिरण्यम् स्वाहा राजसूयायेत्याह राजसूयायक्येनपुनाति समादो व्युम्निनेरो वारण्यर्चा एकया गृह्णादि एकथैव यजमाने वीर्यम् दधादि क्षत्रस्योल्पमणि क्षत्रश्रियोजरथीरितार्प्यम् चोष्णेषम् च प्रेच्छयो नित्वाय एकशरेण तर्भवम् चेदैः पवयति शदायुर्वे पुरुषश्रैवीर्यः आत्मैकसदः यावानेव पुरुषः तस्मिन्वीर्यम् दधादे तध्याशयति इन्द्रियमेवावृन्धे उदुम्बरमासयति अन्नाद्यस्यावरुद्ध्यै सष्टारान्यासयति सुराबलिमेवैनम् करोति आविदयता भवन्ति आवितमेवैनम् गमयन्ति अग्निरेवेणङ्गादिहमद्येनावधि इन्द्र इन्द्रियेण ऊषा पशुभिः पित्रावरुणौ प्राणापाणाभ्याम् इन्द्रो वृत्तायवज्रमुदयच्छत् सदैवमलिखत् सौहर्यम् नः पन्था अभवत् सा विन्नेद्या वा पृथिवे धृतव्रज इति द्या वा पृथिवे उपाधावत् साभ्यामेव प्रसूत इन्द्रावृत्राय वज्रम् प्राहरत् काविन्नेद्या वा पृथिवे धृतव्रज इति गताः आभ्यामेव प्रसूतो यजमानो यम् वैदेव्यजतर्विश्वरूपी अस्यामेव प्रतिष्ठति आविन्नायमसा वामुष्यायणोस्याम् विश्वस्मिन् राष्ट्र इत्याह विषैवेन गौराष्ट्रेण समर्थयति महते क्षत्राय महताधिपत्याय महते जालराज्यायेत्याहे वैतामाशास्ते एषमो भरता राजा सोमोऽस्माकम् ब्राह्मणा तस्मात् सोमराजानो ब्राह्मणाः इन्द्रस्य वज्राशिवाग्नैति धनः प्रयच्छति विजित्यै शत्रुबाधनाश्च शत्रूणेवाश्च बाधन्ते पादमा प्रत्यञ्जम् पादमादियञ्जमन्वञ्जम् मा पादेत्याः तिस्रोऽभीसरव्याःश्चे आभ्य एवैनम् पान्ति ोमापादेत्याः दिव्यम् पान्ति विश्वाःभ्योमा नाष्ट्राभ्यः पादेत्याः अवर्मितादेवेन पान्ति यरण्यवर्णा विषसाहम् विरवेय दृष्टभा बाहु गृह्णादि इन्द्रियम् वेवेल्यम् दृष्टे इन्द्रियमेव वेल्यमरविष्टादात्मन्धत्ते विश्वव्यास्थापयति उत्तुमाद्येत् मनसानुप्रक्रामति अभिषोजयतिमाद्य समिधमादिष्ठेत्याह तेजमेवावरुन्धे बुग्रामाधिष्ठेत्याह इन्द्रियमेवावरुन्धे विराजमाधिष्ठेत्याह अन्नाद्यमेवावरुन्धे पुमादिष्ठेत्याह पशूनेवावरुन्धे ऊर्ध्वातिष्ठेत्याह स्वर्गमेव लोकमभिजयति अनोर्जिहीते स्वर्गस्य लोकस्य चमष्ट्ये मारुतयेन भवति अन्नम् वै मरुतः अन्नमेवावरुन्धे एकविदूषैकपा भवति प्रतिष्ठित्यै योरण्येण वाक्यो गणः कम् मध्यत ग्राम्येरेव पशुभिरारण्यान् पशून् परिगृह्णाति तस्मा ग्राम्ये पशुभिरारण्या पशुवः परिगृहीताः ऋषुर्वेण्यः अभ्यशिच्यता स राष्ट्रम् न भवति स एतानि पार्थ्यपश्यते आन्यजुहोदमेतराष्ट्रमभवते राष्ट्रमेव भवति बाह्यस्फुत्यम् पूर्वेणामुत्तमम् भवति ऐन्द्रमुत्तरेणाम् प्रथमम् ब्रह्म चैवास्मै क्षत्रम् च समीची दधाति अथवा ब्रह्मेव क्षत्रम् प्रतिष्ठापयति षड् पुरस्तादविवेकस्य जहोति षड्वरिष्ठा च द्वादशसम्पद्यन्ते द्वादशमासाः संवत्सरः संवत्सरः सं खलु वै देवानामेव परम् मध्यतो व्यवसत्पति तस्य न कुतश्च नापा व्याधो भवति भूतानामवेष्टेर्जुहति अत्रात्र वै मृत्युर्जायते यत्र यत्रैव मृत्युर्जायते तदेवै नमवेदते तस्मात् जानः सर्वमायुदेति सर्वेकस्य मृत्यो वेष्टाः तस्मात् जासूयेण जानो नाभिजर्दवे प्रत्यये कारशृणुते सोमस्य त्रिषुरसितवे त्रिषद्भूयादिपिशार्दूलचानुमोपस्थिनादि एव सोमेऽ त्रिषिः याशार्दूले तामेवावरुन्धे मृत्योर्वा एष वर्णः यच्छार्दूलः अमृतगृहेरन्यम् अमृतमस्य मृत्योन्मा पाहे निरन्यमुपास्यति अमृतमेव मृत्योरन्तर्धत्ते शतमानम् भवति शतः यः पुरुषः शतेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति युज्योन्मा पाहेत्युपरिष्टात् शिनिदधाति भयद एवास्मै शर्म दधाति अवेष्टादन्तशोकायिकम् शेषेण विध्यति दन्तशोकानेवावेदते अस्माकीपन्दशो गाचकुंसुकाः निरस्तम् नमुति लोहिताय सन्निरस्यति वात्मानमेव नमुनिरवदयते प्राणा आत्मनः पूर्वे भित्सादित्याहुः सो मोराजा वरुणः देवासन्वसुवश्चे ते दे पेवाचगुंसुवन्तान्ते दे दे दे प्राणगुंसुवन्तामित्याह प्राणामेव आत्मनः ब्रूयात् अग्नेस्त्वादेशाभिरुञ्जामीति एतस्वेव स्यात् दुष्कर्मा तु भवेत् सोमस्यत्वाद्भिम्नेनाभिरुञ्जामीत्याह सौम्यो मे देवतया पुरुढः स्वदेवैनम् देवतयाभिरुते अग्नेस्तेदसेत्याः एतदेवास्मिन् इन्द्रस्येन्द्रियेणेत्याह इन्द्रियमेवास्मिन् दधाते मित्रावर्णयोर्वीर्येणत्याह वीर्यमेवास्मिन् दधाते मरुदामो रसेत्याहेवास्मिन् दधाति क्षत्राणाम् क्षत्रपतिरथेत्याह क्षत्राणामेवैरम् क्षत्रपतिम् करोति अतिदिवस्पाहेत्याह अत्यन्यान् बाहे दिवावेददाः मावृद्धम् न धरावृति चेदित्याह काष्ठमेवास्मिन् ध्रुमकः उच्छेणेन जुहोति उच्छेणभागो वे रुद्रः भागधेयेनैव रुद्रम् निरपदयते उदम् पलेत्याग्नेयेध्ये जुहोति एषा वे रुद्रस्य जगे स्वायावेव दिशि तेन वा येन हिनस्ते यगौ हिनस्ते तेनैव ते सहसमयति तस्मै हुतमसि यमेष्टमसेत्याह यमादेवास्य मृत्युमवयजने प्रजापतेन यान् कामय राष्ट्रमस्यै प्रजा स्यादिति राष्ट्रमेवास्यै प्रजाभवदे पर्णमयेनाध्वर्यलभिचिञ्चते ब्रह्मवृत्तसमेवास्मिन् दिशम् दधाति औदुम्बरेण राजन्यः ऊर्जमेवास्मिन्नम् दधाति आश्वत्थेन वैश्यः विषमेवास्मिन्पुष्टिम् दधाति दय्यग्रोधेण जन्यः मित्रान्नैवास्मै कल्पयति तथो प्रतिष्ठत्यै इन्द्रस्य वज्रशुभार्त्रग्भ्यैतिरसमुहरविजित्यै निद्रावर्णयोस्त्वाप्रशास्त्रो शशुराभिमग्मीत्याह ब्रह्मणेवैयम् देवताञ्जनक्ति पृष्टिवाहिनत्ये पृष्टिवाही वै देवः देवर्थमेव स्मैजक्ते त्रयोश्वा भवन्ति रथश्चतुर्थः दौसौ ज्येष्ठसार्थी यत्सम्पद्यन्ते यद्वा ऋतवः ऋतुषदेवैनैत्ये कृष्णक्रमान् क्रमते ेव भोक्तनभिजयति यः क्षत्रियः प्रतिहितः सोऽन्वारभदेष्ट्रमेव भवति तथा मरुताभिरेव प्रसोदनमुज्झयति आप्तम् वनयित्याह यदेव न राजन्यञ्जिनादि अनाहाक्रान्तरेवाक्रमते योजेषन्द्रियेण वीर्येण लभ्यते यो राजन्यञ्जिनादि समहमिन्द्रियेण वीर्येणेत्याह इन्द्रियमेव वीर्यमात्मन्धत्ते सूनाम् मन्यु सर्वे मन्यर्भूयागुदिवाराहीवानहाले पशूनाम् वा एष मन्युः यद्वराह ैव पशूनाम् मन्यमात्मन्धत्ते अभिवार्यम् पशुपाण्यम् कामयते तस्यैश्वरेन्द्रियम् वीर्यमादातो बालाहीरुपाणः उपमञ्च अस्यायेमान्तर्धत्ते इन्द्रियस्य वीर्यस्यानात्ये नमो मात्रे पृथिव्या इत्याहुम्जायि यदस्यायुरस्यायुम् मेधेहीत्याह आयेमात्मन्धत्ते ोर्जम् मेधेहीत्याह ऊर्जमेवात्मन्धत्ते युङ्गसिवर्चो शिवर्चो मयिधेहीत्याह प्रत्य एवात्मन्धत्ते एक एकथा ब्रह्मण उपहरति एकथैव युजमानायोर्जम् वर्चो दुधाति अथविप्रतिष्ठित्यै त्रयोश्वा भवन्ति तृर्थः तस्मा चतुर्जुहोदि यद्भो सः प्रतिष्ठेताम् समानम् लोकमियाता स्वर्गादेवेणन्तर्दधाते ब्रह्मरते ब्रह्मणा दधाते अतिच्छन्दसा दधाते अतिच्छन्दा मे सर्वानिच्छन्दायुञ्जे सर्वेऽभिरेवेणभिरादधातेषा छन्दसा हिरदिच्छन्दाः हिरच्छन्दसा दधाेन कुंसमानानाम् करोति मित्राशिवरुणोऽधेत्याह मैत्रम्बाह भारुणे रात्रिः अहोरात्राभ्यामेव भार मित्रासुवरुणासेत्याह मैत्रो वेदक्षिणः भारुणः सव्यः ऐश्वदेव्या वीक्षाः स्वमेवे ेरित्याहेव्यो वे प्रजाः कुरुते क्षत्रस्य नाथिरक्षत्रस्य यो च मात्वामाहिंसेत्याहुपुंसाये रुणः स्वासाम्राज्यवितान्द्रोति सत्यौ धा इत्याह ेवेनकम् सत्यसन्मानम् करोति सहिता च सत्यसमैत्याः गायत्रीमेवैतेनाभिव्याहरति इन्द्रादिसत्यौ जायित्याः पृष्टफमेवेतेना भिव्याहरति मित्रादिध्येवत्याः जगतिमेवैतेन सत्यमेतादेवताः सत्यमेताच्छन्दागृन्धे सत्यमेवावरुन्धे वरुणादिसत्यसमेवत्याः अनुष्टपमेवैतेन सत्यादितेवानुष्टपे सत्याजृते वरुणः सत्यादृते एवावृन्धे त्याग्रस्तः एवम् वेद इन्द्रस्त्वभ्यैस्फ्यम् प्रयच्छति अज्रोदयस्प्यः अज्वेनैवास्मा अपरपरगुम् रन्थयति एवगम्भिरधेयः यस्मा एते रध्येयोः राजा भूयति पञ्चाक्षान् प्रयच्छति एतेवैवेयाः अपराजा इनमेवैनम् करोति ओ जनुपरे परमे स्थिवा एकः निरोधनः परमामेवेन श्रीम् गमयति शुश्रोकाङ्गला सत्यराया नित्याः शौनश्चैवमाख्यापयते अरुणपाशादेवैनम् मुञ्चति परःशतम् भवति शदायुः शतेन्द्रियः आयुष्येवेन्द्रिये प्रयतिष्ठते मार्गस्यैकमेकपालस्य वैश्वरे व्यै न्नक्े स्वाहोर्जो ने स्वाहार्गे गृहपदये स्वाहेश्राहुजे मे लोकाः येष्वेव लोकेषु प्रतिष्ठति ओ वरुणस्य सुषुपानस्य दशेन्द्रियम् वीर्यम् परापतत् तत्सकुंसमसते तत्सकुंसृपाकुम्सकंसत्वम् अग्निना देवेण प्रथमे हन्यनुप्रायन्ता सरस्वत्या वाचा द्वितीये सवित्रा प्रसवेण तृतीये ओष्णा प्रसुभिश्चतुर्थे बृहस्पतिना ब्रह्मणा पञ्चमे इन्द्रेण देवेन षष्ठे दे वर्णेण स्वया देवतया सप्तमे सोमेण राज्ञाष्टमे अष्टारूपेण नवमे विष्णुना यज्ञेनाप्नोत् यत्सकंसुत्वा भवन्ति इन्द्रियमेव तद्वीर्यम् युजमान आप्नोति पूर्वा पूर्वा वेदिर्भवति इन्द्रियस्य वीर्यस्यावरुद्धे पुरस्तादृम् सोमो वेदे अन्तरा द्वाष्ट्रेण एत एव हितन्तष्टरूपानि विकरोति उपैष्टाद्वैष्णवेन विज्ञापि विष्णुः यज्ञदेवान् अतः जामिवा जामिव एतत्कुर्वन्ति यत्सद्यो देक्षयन्ति सद्यः स्वामम् क्रीणन्ति पुण्डरी स्रजाम् प्रयच्छत् पिलाभिया अङ्गिरजस्वर्गम् लोकयन्तः अप्सदे येक्षादवसे प्रावेशयन् तत्पुण्डरीकमुभवते यत्पुण्डरी स्रजाम् प्रयच्छति साक्षादेवदे एषा स्वामङ्ग्रीणानि दशाक्षदा विराड अन्नम् विराड विराजेवान्नाद्यमवरुन्ध्ये पुष्करा भवन्ति धर्वाय भवते अन्नाद्यस्यावरुध्ये शतम्ब्राह्मणाः पिबन्ते शतायुष्पुरुषश्रेन्द्रियः आयुष्यवेन्द्रिय प्रतिष्ठते सप्तदशस्तोत्रम् भवति सप्तदशः प्रजापतिः प्रजापतेनात्ये प्राकाशापद्भव्यमे ददाति प्रकाशमेवैनम् गमयति प्रजमगात्रे देवस्मैवासयति रुग्मगुंहोत्रे आयुग्मेवास्मा उन्नयति अष्टम् रस्तो नुप्रतिहर्तृभ्यः प्रजापत्यो वा स्मः प्रजापतेनात्ये द्वादशपष्ठोहेर्ब्रह्मणे आयुरेवावरुन्धे वृषाम्मय्येन्द्रावरुणाय राष्ट्रमेव वश्यकः वृषभम् राम्भुंसिने राष्ट्रमेवेन्द्रियाव्यगः वासहीनेष्टा बोधर्भ्या पवित्र एवाश्रयिते स्थूल्यवाचितमच्छावाकाय अन्तत एव वर्णमवेजते सलद्वाहमग्नेधे बन्धर्वा लड्वान् बन्ध्यज्ञेन वन्ध्येव वन्ध्ययज्ञस्यावरुन्धे इन्द्रस्य सुषुपाणस्य त्रेधेन्द्रियम् दे, वेद्यम् परापद बृहत्कृतेयमहवज श्रयन्तेयम् कृतेयम् सरस्वते कृतेयम् भार्गवाहोता भवते श्रयन्तेयम् ब्रह्मदामम् भवते वारवन्तेयमज्ञत्वामधावम् सारस्वतेरवगृह्णादे इन्द्रियस्य वेद्यस्यावरुध्ये श्रायन्त्येयम् ब्रह्मसामम् भवति इन्द्रियमेवास्मिन् वीर्यज्ञश्रयते वारवन्त्येयमज्ञस्तामसामम् इन्द्रियमेवास्मिन् वीर्यम् वारयति ईश्वरो वा एष दिशो नान्मजिताः इन्दिशोऽव्या स्थापयन्तिष्टया भवन्ति इक्ष्वेव प्रतितिष्ठत्यनुन्मादाय पञ्चदेवता विजते पञ्चदिशः इक्ष्वेव प्रतितितितितितितितितितितिष्ठते हविष हविष युष्पामारः सत्यम् विधारयति बृहस्पतिः विजमानमेवते च सा समर्थयति आदित्याम् मळधाम् गर्भिणे मालभते मार्गे वृष्टिम् वष्ठौहे निषन्द्यैवास्मै राष्ट्रम् च समेजे दधाति आदित्यया पूर्वया उच्चैरादित्या आश्रावयते उपाकुंसुमारुत्ये तस्माष्ट्रम् विषमदि वदति गर्भिण्या वित्या भवति इन्द्रियम् वे गर्भः राष्ट्रमेवेन्द्रियाव्यगः गर्भामारुते विद्वै मरुतः अनुदेनासुरानभ्यभवन् हे श्रुभ्याम् भूर्वे पुरोटा सन्ताजगवानन्यसत्यमवारुन्धतश्रुद्भ्याम् भूर्मे पुरोटा सन्ताजगवानन्यर्गपते अनिदेैवभ्यादिर्व्यान विभूय पाचः सत्यमवरुन्धे परस्पदे सत्यवाचे धनम् पूर्वमेवोजम् उत्तरेणाभिगृह्णाति सवित्रे सत्यप्रसवाय पुरोडा सन्तान्ते आविदयता भवन्ति आविदमेवैनम् गमयन्ति न छिद्यते शुक्रदक्षिणासमध्ये आज्ञेयमष्टाकपालन्यर्लपते तस्मात् शिशुररूपम् चालाः प्राञ्चो यान्ति सौन्यम् चलम् न्दर्यवसायादयम् ते सा वित्रम् द्वादशकपालम् अस्मात् पुरस्ताद्यवानागम् च वित्रा विरुधते स वैत्रैव विरुध्य ब्रह्म नायमानादशते बाष्टमष्टाकपालम् रूपान्नेव तेन कुर्वते हैष्वादरम् द्वादशकपालम् तस्माद्विघन्ये लयिताघे प्रत्यन्तः कुरु पञ्चालायाङ्गे सारस्पतम् चलम् गर्वपदे तस्मात् प्राविषदर्भावा च पजन्ति औष्णेण व्यवस्यन्ति मैत्रेण घृषन्ते मारुलेन विधृता आसते क्षैत्रपत्तेन तोन्प्रयुङ्क इति अथो खल्बाहुः कस्संष्यति षडेव्याने षडुत्तरेन्प्रयुङ्क्ते दक्षिणार्थवाहनवाहोर्वेधाम् दक्षिणा उत्तर उत्तरेषाम्सरस्यैवान्तौ युनक्ते स्वर्गस्य लोकस्य चमष्टे इन्द्रस्य सुन्द्रियम् पराभवत् तत्फलमभवत् यद्वितीयम् तद्वदनम् यत्कन्धो यन्नस्तः स सिंहः यदक्षोः सूणः यत्कर्णयोः स वृगः य ऊर्ध्वः स सोमः या वाचे साधुराः प्रियासक्तव भवन्ति इन्द्रियस्यावरुद्धे प्रयाणि लोमानि कृषिमेवावरुन्ध त्रियोग्रहा वीर्यमेवावरुन्ध नाम्नादृशमे कमे पुरुष प्राणाः नाभिर्दुषमे प्राणा इन्द्रियम् वीर्यम् प्राणालेदेन्द्रियम् वीर्यम् यजमान आत्मन्धत् विधेन क्रियाचष्पाणि क्रीणादि अव एतदयोनहिरण्यम् यत्सीषम् अस्त्रे नमाने यत्केपः रसो मोनसुराः यत्सौत्रा मणेसमध्ये स्वाग्ने स्वाधिनेत्याः स्वमेव स्वमाम् पक्षस्व हरस्पत्यै वच्चस्वेन्द्रान्ने वक्षस्वेत्याह एताभ्योक्येता देवताभ्यः पच्यते विश्वस्तकम् दृष्टा वसति ईश्वरस्वामापसति पुनादिदेवनादविव्यावृत्ते पवित्रेण पुनादे पवित्रेण हि सोमम् पुनन्ति वारेण हुष्मेत्याह वारेण हि सोमम् पुनन्ते वाजः पोतः पवित्रेण पुनीयात् प्रयद्धा चेत अधिपमितस्यैतया पुणीयात् अविदङ्गेऽत्रयवृत्तया प्राजापत्यया गृह्णाति अनिरुक्तः प्रजापतिः प्रजापतेरात्यै एकयत्रा गृह्णाति एकथैव वे यजमाने वेर्यम् ग्रहाति आश्विनम् धूम्रमालभते अश्विनौ वै देवानाम् भिजयोः ताभ्यामेवास्मै भेटजम् करोति पारस्पदम् मेघम् वाग्वे सरस्वती वाग्वेवैनम् भिरज्यति ऐन्द्रमशभगृहे कर्ताय यद्विषयोपेष्मालभेत महुद्धास्मा इन्द्रियम् वेर्यम् दध्यात् भ्रातृर्यमस्वे जनयेत् येजोपालभते एकथैवास्मिन्निन्द्रियम् वीर्यम् दधाति नास्मै धातुर्यम् जनयति नैतेषाम् पशूनाम् परोडाशा भवन्ति परः पुरोडाशाश्चेत् युवकम् सदामस्मिनेति सर्वदे वक्ते या ज्ञानुभाग्ये भवतः सर्वा एव देवता प्रीणादि ब्राह्मणम् परिक्रीणीयादुच्छेशणस्य पातारम् ब्राह्मणाह्याहुत्या उच्छेशणस्य पाता यदि ब्राह्मण न विदेत् पमेकमपायामवनयेत् ैव तदः प्रायश्चित्तिः यद्वेषण्ये व्यर्थम् प्रदस्ये समर्थम् प्रथमश्च पुरोडाशाश्च भवन्ति समर्भ्यः पशूनामुत्तमो भवते ऐन्द्रः पुरोडाशानाम् प्रथमः दिनेवास्मि समीचे दधाते पुरस्तादनो राजानाम् पुरोडाशे प्रजवदे पुरोडाशा वरुन्धे ऐन्द्रमेकादशकपालन्यर्पतिवावरुन्धे सावित्रन्दादशकपालम् प्रसोभोक्ते वारणम् दशकपालम् अन्तत एव वरुणप्रयुजते पटपादक्षिणा उत वा एषाश्वगम् सूते उताश्वतरम् उतसोप उतसुरा वणे समर्थेतस्या लभते वे देवानाम् बृहस्पतिः ब्रह्मणेव यज्ञस्य अभ्यर्थमेव स्वमप्रतीकास्मितास्तु प्रदेशता दृन्ना यागम् समवनयति अथायुष्परिशतेन्द्रियः आयुष्येपेन्द्रिये प्रतिष्ठति दक्षिणेऽग्नौ जुहोति आपस्करस्य व्यावृत्ते हिरण्यमन्तराधारयति भूतामेवैरा श्रमाणम् भवति सदाय पुरुषेन्द्रियः आयुष्येवेन्द्रिये प्रतिष्ठति यत्रैव सदा तृण्डान् धारयति अन्यथा एतस्येन्द्रियम् वीर्यम् गच्छति एवम् सोमादिभवते प्रणावाक्याभिरुपतिष्ठतेनन्द्रियम् वीर्यम् गच्छति रुपतिष्ठते श्रीरेवा यतो लोके विचरः आ नेम प्रेणादि अथोत्रेण वै यज्ञस्येन्द्रियाणि होता ब्रह्मा त उपतिष्ठन्ते यान्येव यज्ञस्येन्द्रियाणि हैरेमास्मै भेणजम् करोति अग्निष्टोमग्राहरे यज्ञमुखम् वा भ्यसमक्रमज अथेजो भवति यत्रंशद्वैपदाः तामेवाप्नोति अजापयश्चिपुंसः तमेवाप्नोति त्रिपुंशल येटोमानामयसा पूर्वम् यद्भिषमास्तोमाः एतावा नीयज्ञः यावान्पवमानाः अन्तःश्रेष्णन्वान्यज यत्समाह्नाः एना चलः एनयथा पूर्वम् आत्मनैवाज्ञश्लोमे न धनोति आत्मनापुण्यो भवति प्रजा वा वृत्थानि अजोमुत्थानि यदृच्छो भवत्यनुसन्दत्ते उपत्वायावयोगिनैर्प्रतिवद्भवति वाग्मैवायुः वाजुनेवैजोऽभिषेकः सर्वासामेव प्रजानागम् सूयते सर्वा एणम् प्रजा राजेति वदन्ति एतमत्यन्तशक्ष्यपयित्याः आदित्या वे प्रजाः प्रजानामेवे च नूयते यज्ञमुखात् येषम्भार्या अक्रन् यदा हपवः स्वभाचो अग्रिगैः तेनैव यज्ञमुखान् नयन्ते अनुष्टगत्वतमा भवते अनुष्टुगोत्तमा वाग्वा प्रयन्ते वाचोद्यन्ते उद्वदेर्भवन्ति उद्वद्वानष्टुभारूपम् आनष्टुभाजन्यः तस्मादुद्वदेर्भवन्ति शौर्यनष्टुगोत्तमा भवते स्वर्गस्य लोकस्य सन्तत्ते लोपे सपादेते नैरकम् सम उपनमते यः सामभ्ययेते पापीयाञ्चपामा भवते एतानि खलु वे सामानि यत्पृष्ठानि यत्पृष्ठानि एप् भवन्ति ऐरेव समान्नैरे यानिरेव राजानागुम्सामाणि हैरमस्मिल्लोकलध्वाजे यानि मनुष्यराजानम्सामाणि हैरस्मिल्लोकलध्वाजि उभयोरेवलोकयोरुध्वजे देवलोके च मनुष्यलोके च एकविगुंसोऽभिरेयस्योत्तमो भवति एकविगुंशके च मदीयस्य प्रथमः सप्तदशोदशभेदः विद्वादेकविपुंसः राष्ट्रकंसत्र सः श्रेयवेदम् मध्यतोभिषिच्यते तस्माद्वागेन विषाम् प्रियः योगिमध्यतोभिषिच्यते यद्वागेन मतोदिशोण्यास्थापयन्ति तत्स्वर्गल्लाकमभ्यारोहते प्रत्यवरोहेत् वेयात् उद्वामाद्येत् भवते इममेव तेन लोकम् प्रत्यवलोभते अथो अस्मिन्नेव लोके प्रतिदृक्षत्योन्मादायम् वैरजतः असो भरणे यद्रुग् भवतः आभ्यामेवेन भयः तंभ परिगृह्णादि वरुणस्य वा अभिरिक्ष्यमाणस्यापः इन्द्रियम् वीर्यम् निरभ्यन् हिरण्यमभवत् यदृग्वन्तर्दधाति इन्द्रियस्य वीर्यस्यानिर्घाताय क्षलः पुरुषः आयुष्येवेन्द्रियप्रतिष्ठते आयुर्वेहिरण्यम् आयुष्या एव्यम् एतस्या एवेन अभ्यलक्षरन्ते पर्चोवेहिरण्यम् पर्चस्या एवेण अभ्यलक्षरन्ते अप्रतिष्ठितो ेण यजते अथप्रतिष्ठा अथ संवत्सरमासरस्याहोरात्राणि देवस्य स्तोत्रीयाः रात्रेष्टेमः प्रतिष्ठते अभ्यष्टोमः रात्रयोः प्रतिष्ठते ओर्णवास्याम्बोर्ममहद्भवति ष्टकायामुत्तरम् नैवार्थमासया प्रचेष्टते अमावास्यायाम् पो नमः भवति उद्ष्टमुत्तरम् नाने ये एव समानपक्षे पुण्याहे स्यादा कार्यम् प्रतिष्ठत्यरात्रेत्याहोत्य गायत्रम् चत्र इष्टभञ्च जगति मन्तर्यन्ति न तेन जगदीकृतेत्याहुः वने कुर्वन्तीति यदा वा एषा हीनस्याः सा नस्य वासवनम् तथैव जगदीकृता अर्थवशव्यः विष्टर्वा एष्यरात्रः एवम् विद्वान्निरात्रेण यजते स्मा उच्छति असौतम एवापते अग्निष्कामम् कदाहे अग्निः सर्वा देवताः देवताः स्वेव प्रतिष्ठति ओ, ओ। प्रथमाप्त